अथ षट्त्रिंशोऽध्यायः वैशम्पायन उवाच भीमसेनवच श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः श्रुता मे राजधर्माश्च वर्णानां च विनिश्चयाः आयत्यां च तदात्वे च यः पश्यति सपश्यति पश्यति धर्मस्य जनमानोऽहं गतिमग्र्यां सुदुर्विदां कथं बलात्करिष्यामि मेरोरिव विमर्दनम् स मुहूर्तमिव ध्यात्वा विनिश्चित्येति कृत्यताम् भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् युधिष्ठिर उवाच एवमेतन्महाबाहो यथावदसि भारत महापानि कर्माणि यानि केवलसाहसात् आरभ्यन्ते भीमसेन व्यथन्ते तानि भारता सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते सिद्ध्यन्त्यर्था महाबाहो दैवं चात्रप्रदक्षिणम् यत्तु केवलचापल्याद् बलदर्पोत्थितः स्वयम् आरब्धव्यमिदम् कार्यम् मन्यसे शृणु तत्र मे भूरिश्रवा शलश्चैव वीर्यवान् भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् धार्तराष्ट्रा दुराधर्शा दुर्योधनपुरोगमाः सर्व एव कृतास्त्राश्च सततम् चाततायिनः राजानः पार्थिवाश्चैव येस्माभिरुपतापिताः संश्रिताः कौरवम् पक्षम् प्रति दुर्योधनहिते युक्ता न तथा स्मासु भारत पूर्णकोशाबलोपेताः प्रयतिष्यन्ति सङ्गरे